हरि ओं श्रीसीतारामचन्द्राभ्यां नमः अथ श्रीमत् ध्यात्मरामायणे युद्धकाण्डे चतुर्थः सर्गः श्रीमहादेव उवाच सेतुमारभमाणा तु तत्र रामेश्वरं शिवं संस्थाप्य पूजयित्वा रामो लोकहिताय च प्रणमेत् सेतुबन्धं यो दृष्ट्वा रामेश्वरम् शिवम् ब्रह्महत्यादिपापेभ्यो मुच्यते मदनुग्रात् सेतुबन्धे नरः स्नात्वा दृष्ट्वा रामेश्वरम् हरम् नियतो भूत्वा गत्वा वाराणसिन्दर आलीय गङ्गासलिलम् रामेशम् अभिजित्य समुद्रे क्षिप्त तद्भारो ब्रह्म प्राप्नोत्यसंशयम् कृतानि प्रथमे ना ना। नाना ना योजनानि चतुर्दश द्वितीयेन तथा चाह्न योजनानि तुविंशतिः तृतीयेन तथा चाह्न योजनानेकविंशतिः चतुर्थेन तथा चाह्न द्वाविंशतिरिति पञ्चमेन त्रयोविंशति योजनानि समन्ततः बबन्ध सागरे सेतुं नलो वा तेनैव जग्मो कपयो योजनानां शतं द्रुतम् असङ्ख्याता सुवेलाद्रीं रुरुधु अरुये अरुह्य मारुतिं रामो लक्ष्मणोऽप्यङ्गदम् तथा दिद्रक्षूराघवो लङ्काम् अरुरोहाचलम् दृष्ट्वालङ्कां सुवितीणां नया चित्र कुलां चित्रप्रासाद संवादाकारतोरणं परिखाभिः शतग्निभिः सङ्क्रमै च विराजिताम् प्रासादोपरवीष्टेण प्रदेशे दश कन्धरः मन्त्रिभिः सहितो वीरैः गिरि च दश नीलादरी समप्रभ, नीलाद्रिशिखराघ सभ रनदंडे अनेकई परिशोभित परशोभित एक अंतरे बद्ध मुक्त राण वैशुख वन तड़ता सम्य दशा नमग प्रहस रावण पीड़ित किंपरेशुक श्रावणस्यैव च श्रुत्वा शुको वचनमब्रवीत् सागरस्योत्तरे तीरे अब्रवं ते वचनं तत उत्प्लुत्य कपयो गृहीत्वा मां क्षणात्ततः मुष्टिभिः न कदन्ते च हन्तुं ततो मां राम क्रोशन्तं रघुपुङ्गवः विसृजताहम् वितिप्राये विसृष्टोऽहं कपीश्वरी ततोऽहमागतो भीत्या दृष्ट्वा तद्वानरं बलम् राक्षसानां बलोघस्य माधरेन्द्रबलस्य च नैतयोर्विद्यते सन्धि देव दानवयोरिव पुरप्राकारमायान्ति क्षिप्रमेकतरं कुरु सीतां वासमे प्रयच्छासु युद्धं वा दीयतां प्रभ मामह रामस्तं ब्रूहि रावणम् मद्वच शुभ यद्बलं च समाश्रित्य सीता मा मेरुतवानसि तद्दर्शयथा कामं ससैन्य सह बान्धव सत्काले नगरीं लङ्कां स्वप्राकारां राक्षसं च बलं पश्य शरिध्वंसितं मया घोररोषयं बलं धारय रावणः इत्युक्तो पररामार्थ ब्राह्म कमललोचनः एकस्थानगता यत्र चत्वार पुरुषश्च भ श्रीरामो लक्ष्मणश्चैव सुग्रीवश्च विभीषणः एतैव समर्थास्ति लङ्कां नाशयितुं प्रभो उत्पाट्य भस्मिकर्णे सर्वे तिष्ठन्तु वानरः तस्यादृबं दृष्टं रूपं प्रहरणानि च भजिष्यति पुरं सर्वम् एकस्तिष्ठन्तु ते त्रय पश्ये वानरसेनां ताम् असङ्ख्याताम् प्रपूरितां गर्जन्ति वानरः पश्य पर्वतसन्निभा न शक्यासे गणयितुं प्राधान्येन ब्रवीमिते एष योभिमुखो रङ्गां न दन्ति क्षतिवानर यूथपानां सहस्राणां शतेनः परिवारितः सुग्रीव सेनाधिपति नीलो नामार्मिनन्दनः एष पर्वतशृङ्गार पद्मकींजल कसि स्फोटिवृद्धो लांगूरम च पुनः पुनः नाम वालीपुत्रो वीरवाय ना जनकतीव वल्लभ हनुमच विख्या हतो यवात्मज श्वेत रजतहु महाबुद्धिराक्रम तुर्णम सुग्रीव मागम्य, आगम्य पुनर्गछति वान यंह सकाश पशेर विक्रम रंभो नाम लंका नाशयुम क्षम एष पश्य वै लंकाधनिवर शरभो ना, ना राजेन्द्र कोटियूथ पतापनायकः पनसश्च महावीर्यो मन्दश्च द्विविधस्तथा नलश्च सेतुकर्या कर्तासु विश्वकर्मबली वानराणां वर्णने वा संख्याने वा कईश्वरः शूरा सर्वे महाकाया सर्वे युद्धाभिकाङ्क्षिणः शक्ता सर्वे चूर्णयितुम् लङ्कां रक्षो गणैः सह एतेषां बलसङ्ख्यानम् प्रत्येकं वच्मि शृणु एषां कोटिसहस्राणि नव पञ्च तथा शङ्ख सहस्राणि तथा सुग्रीव सचिवानां ते बलमेत प्रतिथम् अन्येषां तु बलम् नाहं कर्तुं शक्तोऽस्मि रावणः रामो न मानुषस्साक्षात् आदिनारायण परः सीता साक्षात् जगत् हेतु चिच्छक्ति जगदात्मिक ताभ्यामेव समुत्पन्नं जगत्सावरजङ्गमम् तस्मात् रामश्च सीता च जगतस्तौ पितरौ पृथ्वी पाल तयोर्वैरे अजानता त्वया नीता जगन्मातैव जानके क्षणनाशिनि संसारे शरीरे क्षणभङ्गुरे पंचभूतात्मके राजन् चतुर्विंशति तत्त्वके मलमासास्थि दुर्गन्धे भूयिष्ठेऽहं कृतालये कैवास्थावितरिक्तस्य का कायेतव जडात्मके यत्कृते ब्रह्मत्यादि पाटकानि कुतानि ते भोगभोक्तासु यो देह स देहोऽत्र पतिशति पुण्यपापे समायातो जीवेन सुखदुःखयो कारणे देहयोगादीन् आत्मने कुरुतो निशम् यावद्देहोस्मीकर्तास्मीति आत्माहं कुरुतेव च अद्य जन्म नाशादिसम्भव तस्मात् तं त्यज देहादौ महमते अहमते आत्माति निर्मल शुद्धो विज्ञानात्मा चलो व्ययः स्वज्ञानान्वशतो बन्धम् प्रतिपद्य विमोह्यते तस्मात् तं शुद्ध भावेन ज्ञात्वात्मानं सदा स्मर विरतिम् भज सर्वत्र पुत्रदारगृहादिषु निरयेष्वपि भोगः स्यात् कशुकरतनावपि देहम् लब्ध्वा विवेकाढ्यं द्विजतं च विशेषतः तत्रापि भारते वर्षे कर्मभूमौ सुदुर्लभम् को विद्वानात्मसात् कृत्वा देहं भोग निगो भवेत् ब्राह्मणो भूत्वा कौलस्य तनयश्च सन् अज्ञानीव सदा भोगान् अनधार किम्बुधा इतः परं वा त्यक्त्वा तं सर्वसङ्गं समाशय राममेव भक्ति भा, भावेन सर्वदा सीतां समर्प्य रामाय तद्बाधानुचरु भवे सर्वपापेभ्यो विष्णु लोकं नो चेत् गमिष्यते धोद्ध पुनरावृत्तिवर्जित अङ्गीकुरुष्व मद्वाक्यं हितमेव वदामि ते तत्सङ्गतिं कुरु भजस्वरिं चरण्यं श्रीराघवं मरकतो फलकान्ति कान्तं सीता समेत सुग्रीव लक्ष्मणवि क्षणसे विताङ्घ्रिम् इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे युद्धकाण्डे चतुर्थः सर्गः श्रीसीतारामचन्द्रार्पणमस्तु